तत्र वानरराजाभ्यां मैन्देन द्विविधेन च युयुधे दिवसांसप्ता न च तौ विकृतिं गतौ ततस्तुष्टौ महात्मानौ सहदेवाय वानरौ ऊचतुश्चैव संहृष्टौ प्रीतिपूर्वमिदं वचः गच्छ पांडव ग रत्नान्यादाय शर्वश अविग्रमस्तु क्या धर्मराधा धीमते तत्ुपा पुरी महिष्मतीय त्र नीले चक्रे युद्धं युद्ध पाण्डवः परविरघ्नः सः देवः प्रतापवान् ततोऽस्य सुमहद्युद्धमासीद्भिरुभयङ्करम् सैन्यक्षयकरं चैव प्राणानां संशयावहं चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः ततो रथा हयानागाः पुरुषाः कवचानि च प्रदीप्तानि व्यदृश्यन्त सह तदा ततः कुरुनन्दनः नोत्तरं प्रतिवक्तुं च शक्तो भुज्जनमे जया जनमे जय उवाच किमर्थं भगवान् वह्निः प्रत्यमित्रो भवद्युधि सह देवस्य यज्ञार्थं घटमानस्य वै द्विजा वैशम्पायनवाच तत्र माहिष्मती भगवान् हव्यवाहनः श्रूयते ही गृही वै पुस्तात्दारीक नील से राजो दुहिता बभूवातीवशोभना साहोत्रुपातिदोधनायु सदा व्यजनैर्धूयमानोऽपि तावत् प्रज्वलतेन सह यावच्चारुपुटौष्ठेन वायुना न विधूयते ततः स भगवानग्निश्चकमेतां नीलस्य राज्ञः सर्वेषामुपनीतश्च सोऽभवत् ततो ब्राह्मणरूपेण रममाणो यदृच्छया च कमेतां कन्यामुत्पललोचनाम् तं तु राजा यथा शास्त्रमशासद्धार्मिकस्तदा प्रज्वालततः राजा जगामशिरसावनिं ततःकालेन तथैव हि तदा नृपः प्रददौ विप्ररूपाय वह्नये शिरसानतः प्रतिगृह्य च तां शुभ्रों नीलराज्ञः तदा चक्रे प्रसादं भगवांस्तस्य राज्ञो विभावसुः वरेण छन्दयामा शतं नृपं स्विष्टकृत्तमः अभयं च स जग्राह स्वसैन्ये वै महीपतिः ततः प्रभृति ये केचिदज्ञानात्तां जिगीषन्ति बलाद्राजंस्ते दह्यन्ते स्म वह्निना